मेधा देवी जुषपाणा न आगा अद्विश्वाची भद्रासुपनस्यपाना त्वया जुष्टा दुतपाना दुरुक्ता अन्बृहद्वदे मदथे सुबेराह त्वया जुष्टषर्भवति ते वि त्वया ब्रह्मा गतश्रेरुत त्वया त्वया जुष्टश्चित्रम् विन्दते वसुसादो जुषस्वद्रविणो न मेधे मेधाम् म इन्द्रो ददातु देवी सरस्वती मेधाम् मे अश्विनाबुभावा धत्ताम् पुष्करस्रजा अप्सराषु तजा मेधा गन्धर्वेषु तजन्मनः दैवीम् मेधा सरस्वती सा मा अम् मेधा सुरभिर्जुषतास्वाहाम् मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या ऊर्जस्वती पयसा पिन्वपानासा माम् मेधातु प्रतीकाजुषन्ताम् मयि मेधाम् मयि प्रजाम् मयि यज्ञस्तेजो दधातु भज मयि प्रजाम् मयीन्द्रजिन्द्रियम् दधातु भज मेधाम् मयि